ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवते महापुराणे सप्तमस्कन्धे अष्टादशोऽध्यायः वास उवाच कदाचित्तो हरिश्चन्द्रो मृगया संबरं ययो अपश्य दृत सीम्बालां सुन्दरीं चारुलोचनां सान् महाराजः कामिनीं करुणापर पद्मापत्रविषा राक्षि किं रोधि शिवरानुने केना केना पीडितात्यर्थं किं ते दुःखं बदाशुभे काचित् तं विस्ते भर्ता पिताथवा न बाधते च राज्ये मे रक्षसोऽपि पराङ्गन्मि तर् सान्ते यस्ताम् सुन्दरि बाधते ब्रूहि दुःखम् वररोहि स्वस्था भवशोदरी कृशोदरि विषये मम पापात्मा न तिष्ठति तु मध्यमे इति तस्यैव च श्रुत्वा नारी तम् अब्रवीन् नृपम् प्रमृज्याश्रूणि वदनात् हरिचन्द्रं नृपोत्तमम् नार्य उवाच राजन्मां बाधते च विश्वामित्रो महामुनिः तपः करोति यद्धोरं मदर्थं कौशिको मुने तेनाहं दुःखिता राजन् विषये तव सुव्रत विद्धि मां पीडिताम् मुनिना भृशम् राजोवाच स्वस्थाभयविशालाक्षि न ते दुःखम् भविष्यति तमहम् वारयिष्यामि मुनिम् तापयपरायणम् नीत्वाश्वास्य राजा सरसा मुनिसन्निधौ न शिरसा सम्मुवाच महीपतिः स्वाम्यन् किं क्रियतेत्यर्थं तपसादेहपीडनम् किमर्थं ते समारम्भो ब्रूहि सत्यम् महामते वाश्छितं तव गाधय करोमि सफलम् किल उत्तिष्ठोत्तिष्ठ सरसा तपसालम् अतः परम् मम सर्वज्ञ न कर्तव्यम् सुदारुणम् लोकप्रीडाकरम् घोरम् तपक्केनापि कर्हित् इत्थम् निषिध्य राजा विश्रामित्रम् गृहम् ययो मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः स्वगत्वा चिन्तयामास न प्रकृत्यम् साम्प्रदम् वसिष्ठस्य च संवादम् तपसः प्रतिषेधनम् कोपाविष्टे न मनसा प्रतिकारमकरोत् विचिन्त्य बहुधा चित्ते दानवम् घोरविग्रहम् प्रेशया तद्देशम् विधाय सुकरकृतिम् शोतिका मोम शोचिका यो महाकारः कुर्वन्नादम् सुदारुणम् अन्यश्च पुवने प्राप्तः रक्षकान्तर मालतीनाम् च खण्डानि कदम्भानाम् तथैव च योधिकानाम् च वृन्दानि कम्पयंश्च मुहुर्मुः मुहु। दन्तेन विलिखन् भूमिम् समन्दोलयते ध्रुवान् चम्पकान् केचकी खण्डान् मल्लिकानाम् च पादपान् करबीरानुशीराश्च निजखानशुभान् मृदुन् मुचुकुन्दा न शोकांसे बकुलां शिरकांसे उन्मूल्य कदनं तत्र चकारे सुकरो वने वाटिका रक्षकः सर्वे दुद्रुवशस्त्रपाणयै हेति चकृषु तत्र मालाकार भुजासुरः बाणै सन्ताड्यमानोऽपि यदा त्रो न वै मृगः रक्षकान् पीडयामासे पोलकालसमद्युति ते तदा ते भयाक्रान्ता राजानं शरणं ययुः तम् उच्युत्रापमाना भयापुरः तानागतान् भया भूपति तदा भयं कस्माम् स्वृ किय कस्् ब्रुवंत सगता देंभ्यो रक्षसे रक्षक मुत्पन्न तुव मे हमित तम शत्रु दुर्भगम कि मेरा समुत्पन्नो लोके पापमति देवो वा दानभो वापि तं निहन्मीश्वरे स्थितै क्वष्ठति कियद्रूपः कियद्बलसमन्वितः अलाकारा ऊचुः न देवो न च न येक्षो न च किन्नरः कश्चित् कौलमा कयो राजन् तिष्ठति कानने दन्ते दे नोन्मूलयत्यसो विजीर्णं तद्बलंहस विशिखैताडितोऽस्माभिः दृजद्भिः लकुटैस्तथाय न बिभेति महाराज हन्तुमस्मानुपद्रवत् कतुवच इत्याकर्ण्यवच तेषाम् राजा कोपसमाकुलः अश्वमारुह्य सरसा जगाम्भोपवनम् प्रति सैन्येन माता युक्तो गजायुतः वदाशीवृन्दसहितः त्रययो वनमुत्तमम् तत्रा पश्यन् महाकोलं गुरुं गुर भयानकम् वनं भग्नं च संवीक्ष्य राजा क्रोधयितो भवत चापे बाणम् समारोप्य विकृष्य च शरासनम् तं हन्तुम् सुकरम् पापम् तरसमुपाक्रम समालोक्य च चापहस्तं चापहस्तम् वृषाकुलम् सम्मुखोऽभ्यज्रभयस्तूर्णम् कुर्वन् शब्दम् सुदारणम् सम्मायन्तं समालोके वराहं विकृताननम् मुमोच विजिखं तस्मिन् हन्तुकामो महीपतिः पञ्चयित्वाथ्रा सरसा बलात् निजगाम वैग तमुल्लङ्घ्य नृपं त्वा गच्छन्तं तं समालोक्य राजा कोप मोचे विजिखान् शीघ्रं च ब्रह्माकृष यत्नतः किणं दृष्टिपथं राज्ञः किणं च दर्शनम् गतः कुर्वन् बहुविधारावम् शुक्रः समुपाद्रवतः हरिश्चन्द्रो ते कुपिलो मृगस्यानु जगामः अश्वेन वायुवेगेन विकृष्य च शरासनम् इतस्ततः सैन्यम् अगमश्चनन्तरम् एकाकीन्द्रपथे कोलम् पर्यन्तम् समुपाद्रवत् मध्याह्नसमये राजा सम्प्राप्तो विजनै वने त्रुचितः क्षुधितः त्यर्थम् बभूव श्रान्तवाहनः सुकरो दर्शनम् राजा चिन्ता सुरो भवतः मार्गभ्रष्टोति विपणे दारुणे दीनवत्सितः किं करोमि क्व गच्छामि न स योतिमेव ने अज्ञात्र स्वत्र व्रजामीतीव चिन्तयत् एवं चिन्तयत तत्र विपणे जन राजा चिन्ता सुरोपश्यन् नदीं सूपी मलोदकां वीक्ष तं मुदितो राजा पाययित्वा तुरङ्गकम् अश्वादुत्तीर्य विमलम् पपो पानीयमुत्तमम् जलम् पीत्वा नृपस्तत्र सुखं वाप महीपतिः नगरं गन्तुं दीघ्रमेणाति मोहितः विश्वामित्र तु वृद्ध ब्राह्मणरूपदृग न नाम वीक्ष राजातं प्रीतिपूर्वं द्वियो राजः प्रणमन्तं नृपोत्तमं स्वस्ति ते तुमहाराज किमर्थं यागतः एकाके विजने राजन् किंचिकीषितमत्र ते ब्रूहि सर्वं शिरो भूत्वा कारणम् नृपसत्तम राजोवाच सुकरोति महाकायो बलवान् पुष्पकार मम भासु कोमलान् पुष्पपादपान् तं निवारयितुम् दुष्टम् करे कृत्वा च कार्मुकम् ससैन्योऽहम् सनगरान् निर्गतो मुनिसत्तम गतो सौ दृक्पथापो मायाभिन् पृच्छतो प्राप्तः सैन्यं क्वापि गतं नमः दे, सैन्यभ्यश्चिहाय गतः न जाने पुरमार्गं च तथा सैन्ये गतिं मुने पन्थानं दर्शय विभो व्रजामि नगरं प्रति ममात्र भाग्ययोगेन प्राप्त त्वं विजने वने अयोध्याधिपतिष्ठाहम् हरिश्चन्द्रोऽतिविश्रुतः राजसूर्यस्य कर्ता च वञ्चितार्थ पदस्वय धनेच्छायज ते ब्रह्मन् यज्ञम् बिजसत्तमये आगन्तव्यम् अयोध्यायां दास्यामिपि इति श्रीमद्देवी भागवते महापुराणे अष्टादश शास्त्रां सहितायां सप्तमस्कन्धे हरिश्चन्द्रद्वारा वृद्धभ्रह्मणाय धनदान प्रतिज्ञा वर्णनं नाम अष्टादशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु